गणेशपुराणम् उपासनाखंडं अध्यायं 63 त्रि गणा उवाच शृणुध्वं योगिनः सर्वे स्थिरीकृत्य मनश्चलं यज्ञ शेषो भवेद्वक्तुं समर्थश्चदुरानः तद्वक्तुं कः वदाम च कुर्वन्दिस्तवनं यस्य सर्वदा जशिवादयः तस्य को गणनाथस्य महिमानं वदे स्फुटं युद्धं तदीयां लीलां वा तथापि शृणुता नखाखा दुर्वाङ्गुराणां महिमानज्ञादो मुनिभिस्सुरैः यज्ञैर्दानैस्तपोभिश्च व्रतैर्होमैर्नवाप्यते अत्राप्युदाहरन्तीममितिहासं पुरातनं वासवस्य च संवादं नारदस्य महात्मनः एकदा नारदो गच्छद्वासवं द्रष्टुमुत्सुकः पूजिता परया भाक्रिया भक्रियादन पग्रह मुनिप्रचल दुर्वा महात्म्यदराद इंद्र उवाच किम देवेवेश महात्म विशेषद प्रिया ब्रमहादूर्वांगुरा मुने मुनिरुवाच कथयामि यदाज्ञादं दूर्वामाहात्म्यमुत्तमं स्थावरे नगरे पूर्वं कौण्डिन्यो भून्महामुनिः उपासको गणेशस्य तपो बलसमन्वितः रमणीयत् सरस्तस्य ग्रामदक्षिणभागतः आश्रमस्तुमहानाशील्लता वृक्षसमन्वितः सरांसि फुल्लपद्मानि यत्रासन् सुमहान्ति च भ्रमरैरुपजुष्टानि हंसकारण्डकैरपि चक्रवाकैर्बकैश्चैव कच्छपैर्जलकुक्कुटैः सदुध्यानरतस्तत् प्रारभत्तप उत्कटं पुरस्ताप्य महामूर्तिगणेशस्य चतुर्भुजां सुप्रसन्नां सुवरदां दूर्वायुक्तां सुपूजितां जाप परमं मन्त्रं षड्वर्णं hmm. देवतोषकम् प्र संश्रयाविष्टा पत्नीनाम्नाश्रयास्यदम् आश्रयो वाच स्वामिन् गजानने देवे दूर्वां भारं दिने दिने समर्पयसि कस्मात् त्वं तृणैः कोऽपि न तुष्यति अस्ति चेत् पुण्यमेदेन तन्मेत्वं त्वं कृपया वद कौण्डिन्य उवाच शृणु प्रिये प्रवक्ष्यामि दूर्वामाहात्म्यमुत्तमं धर्मस्य नगरे पूर्वमासीदुत्सव उत्तमः सर्वे देवाः स गन्धर्वा आहूताश्चाप्सरोगणाः सिद्धचारणनागाश्च मुनयो यक्षराक्षसाः तिलोत्तमाया नृत्यन्ताप्रावारो न्यपदद्भुवि ददर्श तस्याः संयमः कुचौ चारू बृहत्तमौ अभवत् कामसन्तप्तो विश्रान्तो निरपत्रपः ेषालिङ्गितुं तस्याच्युम्बितुं च तदाननं सदसो निर्गतस्तस्माल्लज्जयाधो मुखो यमः गच्छतस्तस्य रेतश्च स्खलितं पतितं भुवि ज्वालामाल्य भवत्तस्मात् सभुरूषो विकृताननः कुर्वन् दंष्ट्राखं क्रूरं त्रासयन् भुवनत्रयं ददाख पृथिवीं सर्वां जडाभिर्गगनं स्पृशेद चकम्भे तस्य शब्देन त्रिलोकी मानसं भृश्यं तदैव विष्णुमगमस्ते तु सर्वे सभासदः स्तुतिं नानाविधां कृत्वा नानास् स्तोत्रैर्यथामधि प्रार्थयामासुरव्यग्रास्सर्वलोकहितायतं स तैः सर्वैः समगमद्गजाननमनामयं तस्य नाशं ततो ज्ञात्वा तुष्टुवुः सर्वयेवतं देवामुनयश्चोचुः नमो विघ्नस्वरूपाय नमस्ते विघ्नहारिणे नमस्ते सर्वरूपाय सर्वसाक्षिन् नमोऽस्तु नमो देवाय महदे नमस्ते जगदादये नमः कृपानिधेतुभ्यं जगत्पालनहेतवे नमस्ते पूर्णतमस्ये सर्व संहारकारिणे नमस्ते भक्तवरद सर्वदात्रे नमो नमः नमस्ते नन्यशरणसर्वकामप्रपूरक नमस्ते वेदविदुषे नमस्ते वेदकारिणे कमन्यं शरणं याम को नु न स्याद्भयापः अलये प्रलय कदम लब्धो जनैरय हा गजानन देश विघ्नहराय मरणेपुपेक्षसे शुवा करूजानन विभ्रत कमलनयने आविरासीत्पुरस्तेषां शिशुरूपोऽभीतिः बिभ्रत्कमलनयने शतचन्द्रनिभाननं कोडिसूर्यप्रभाजालकोटिकन्दर्पजिद्वपुः कुन्दकुट्मलशोभाञ्जिद्दशनोधर बिम्बजित उन्न सो भ्रृकुचारुनयन कंबुकंटयुग विशाल जानुस्पृभुजयु बली गंभीरनाल सुतरो दिसत्कटि रंभाशोभा पिस्पर्धि गुरूच्चा सूग सुचारूजा गुलफ्री विलसत्दपाशोभा्यो येवं देवं नगर से पुरो भुवि उत्तस्तुर्देव मुनयशपुरसर प्रणेमुर्दंडवद भूमौ चक्रं देवगणा यथा देवा ऋषय ऊचुः को भवान् कुद आयादः कार्यं वदनो विभो वयमेवं विजानीमो ब्रह्मैव बालरूपधृक् अनलासुरसन्त्रासा त्यक्त्वा कर्माणि संस्थितान् आविर्भूतं तु न स्त्रातुं इदितद्वचनं इति तद्वचनं श्रुत्वा शिशुरूपी गजाननः बभाषे हास्यवदनः सर्वान् देवमुनीन्प्रति बाल उवाच भवन्तो ज्ञानसम्पन्ना यदुक्तं सत्यमेव तत् अहं तस्य वधायैव दुष्टस्य परपीडिनः निजेच्छया बालरूपी वेगे नागां सुरर्षयः उपायं वच्मि वस्तस्य वधेतं कुरुता नखाः सर्वार्भवद्भिस्तं दृष्ट्वा नोदनीयो बलादहम् द्रष्टव्यं कौतुकं तस्य मम चैव महत्तरं एवं श्रुत्वा कृपावाक्यं सर्वे ते हर्षनिर्भरा ऊचुः परस्परं सर्वेन्न जानीमोऽस्य पौरुषम् ईश्वरो बालरूपेण कर्तृमस्य वधं अवतीर्णो भवेत्रादुं पीडितं भुवनत्रयं युद्धमुक्त्वा तु सर्वे प्रणे मुस्सादरं चदं यदस्मिन्नेव काले तु कालानलस्वरूपधृक दहन् दशदिशो भक्षन्नरलोकं समाययौ कोलाहलो महानाशील्लोकानां क्रन्दतां तदा दृष्ट्वैव सर्वे मुनह्यः पलायनपराययुः तं च दे मुनह्य प्रोजुशीघ्रं कुरु पलायनं नो चेद्धिं शिष्यदे किमिङ्गिलो यथा मीनानुरगान् गरूडो यदा इति तद्वचनं श्रुत्वा परमात्मा गजाननः बालरूपधरो तिष्ठत्पर्वतो किमवानिव सुरर्षयो ययुर्दूरा तत्रैव बालकम् गने से उपासना खंडे दुर्वा महात्म्ये तमोध्यायः ओम।